आयान्त्यां कनकाब्जिनी पति मया साकूतम् आलोकिते देवे निर्जरगामिनी परिषदि प्रत्यग्रलीलारसं सद्यः सिद्धदुरस्थलम् सचगितया व्यापारितार्घे क्षणो सव्याजस्मयम् आरवक्त्रकमलो वैलक्षलक्ष्यते उद्यद्वेगवती तरङ्गनिगरम् व्यक्तानुपूर्व्या स्पृशन् रोमाञ्चं जनयन्ने कदम्ब मुकुलोल्लास उपलम्भक्रमादे भृङ्गिः गोकपोदगोकिरवैः शान्तरं पूरयं मे बन्धुर्गन्धवः स्तनन्धयैक प्रत्यङ्गम् आलिङ्गति प्रान्तभ्रान्त दृगन्तलीलं बुदितभ्रूवल्लरीचापलु चिन्ता निश्चलकर्णपूरम् असमप्रशनोत्तरप्रक्रियम् आकल्याणे अतिकौतुकं सुरवधूबिम्बो जातस्पृहं भावैः कैरपि शङ्करः प्रतिलतागेय परिक्रामति कैरपि शङ्करः प्रतिलतागेग परिक्रामति लतागेगं कैरपि शङ्करः प्रतिलताग्रेण परिक्रामति